नारायणं नमस्कृत्य नरं नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत। विराटपर्वणि तृतीयोऽध्यायः वैशम्पायन उवाच इत्येवमुक्त्वा पुरुषप्रवीरस्तथा अर्जुनो धर्मभृतां वरिष्ठः वाक्यं तथा सो विररामभूयो नृपो परं भ्रारतरमा भवाषे धिष्ठिर उवाच किं त्वं न कुलकुर्वाणस्तत्र तातचरिष्यसि कर्मतत्त्वं समाचक्ष्व राज्ये तस्य महीपतेः सुकुमारश्च सूरश्च दर्शनीयः नकुल उवाच अश्वबन्धो भविष्यामे विराटनृपतेरहं सर्वधा ज्ञानसम्पन्नः कुशलः परिरक्षणे ग्रन्थिको नाम नाम्नाहं कर्मैतत् सुप्रियं मम कुशलोऽस्म्यस्वशिक्षायां तथैवास्वचिकित्सने प्रियाश्च सततं मे स्वाहा कुरुराज यथा तव ये मामन्त्रयिष्यन्ति विराटनगरे जनाः तेभ्य प्रवक्ष्यामि विहरिष्याम्यहं यथा पाण्डवेन पुरा तात पुरा नगरे छन्नश्चरिष्यामि महीपते युधिष्ठिर उवाच सहदेव कथं तस्य समीपे विहरिष्यसि किं वा कर्म कुर्वाणः प्रच्छन्नो विहरिष्यसि सहदेव उवाच गोसंख्याता भविष्यामि विराटस्य महीपतेः प्रतिषेद्धा च दोग्धा च तन्तिपाल इति ख्यातो नाम्नाहं विदितस्तथा निपुणं च चरिष्यामि भेतु मे मानसोज्वरः अरोगाबहुलाः पुष्ठाः क्षीरवत्यो बहुप्रजाः निष्पन्नसत्त्वा सुभृताः व्यपेतज्वरकिल्बिषाः नष्टचोरभयानित्यं व्याधिव्याघ्रविवर्जिताः गावश्च सुसुखा राजन्नुरुद्विघ्ना निरामयाः भविष्यन्ति मया गुप्ताः विराटपशवो नृप अहं हि सततं गोषु भवता प्रहितः पुरा तत्र मे कौशलं सर्वम् अवबुद्धं विशाम्पते लक्षणं चरितं चापि गवां यच्चापि मङ्गलं अन्यच्चापि महीपते वृषभानपि जानामि जा राजन्पूजितलक्षणान् पूजितलक्षणान् मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते सोऽहमेवं चरिष्यामि प्रीतिरत्र हिमे सदा न च मां वेत्स्यते कश्चित् तोषयिष्ये च पार्थिवं युधिष्ठिर उवाच प्राणेभ्योऽपि करीयसी मातेव परिपाल्या च पूज्या ज्येष्ठेव च स्वसा कृष्णा कर्मणा विचरिष्यति नहि हि किञ्चित् विजानाति कर्म कर्तुं यथा स्त्रियः सुकुमारी च बाला च राजपुत्री यशस्विनी पतिव्रता महाभागा कथं विचरिष्यति माल्यगन्धान् अलङ्कारान् वस्त्राणि विविधानि च एतान्येवाभिजानाति यतो जाता हि भामिनि द्रौपद्युवाच सैर्यन्ध्र्यो रक्षिता लोके भुजिष्याः सन्ति भारता नैवमन्याः स्त्रिया स्त्रियौ यान्ति इति लोकस्य निश्चयः साहं ब्रुवाणा कुशला केशकर्मणि युधिष्ठिरस्य गेहे वै द्रौपद्याः परिचारिका उषितास्मीति वक्ष्यामि पृष्टा च भारता आत्मगुप्ता चरिष्यामि यन्मां त्वं परिपृच्छसि सुतेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीं सारक्षिष्यति मां प्राप्तां मा भूत्ते दुःखमीदृशं युधिष्ठिर उवाच कल्याणं भाषसे कृष्णे कुले जातासि भामिनि न पापमभिजानासि साध्वी साधुव्रते स्थिता यथा न दुर् दुर्हृतः पापा भवन्ति सुखिनः पुनः कुर्यास्तत्त्वं हि कल्याणि लक्षयेयुर्नते तथा इति महाभारते विराट विराटपर्वणि पाण्डवप्रवेशपर्वणि युधिष्ठिरादिमन्त्रणे तृतीयोऽध्यायः सर्वं श्रीगुरुचरणार्पणमस्तु